नारायणीयं दशकम् एय्टि फैव् मीटर् पृथ्वी ततो मगधभूभृता चिरनिरोधसङ्क्लेशितं शदाष्टकयुधायुधद्विदयमीश भूमीभृताम् अनाथशरणाय ते कमपि पूरुषम् प्राहिणो दया च दसमागधक्षपणमेव किं भूयसा पर्याकुलः विरुद्धजयिनोध्वरादुभयसिद्धिरित्युद्धवे शशंसुषिनिजै समं पुरमियेधयौधिष्ठिरीम् अशेषदयितायुधे त्वयि समागदे धर्मजो विजित्य सहजैर्महीं भवदपाङ्गसंवर्धितैः श्रियं निरुपमाम् वहन्नहः भक्तदासायिदं भवन्तमयिमागधे प्रहितवान् सभीमार्जुनम् गिरिव्रजपुरं गतास्तदनु देवयूयन्त्रयो यया च समरोत्सवं द्विजमिषेण तमागधम् अपूर्णसुकृतं त्वमुं पवनजेन सङ्ग्रामयन्निरीक्ष्य सह जिष्णुना त्वमपि राजयुद्ध्वा स्थितः अशान्तसमरोद्धतं निपात्य जरसः सुदम् पवनजेन निष्पाटितम् विमुच्य नृपीन्दा समनगृह्य भक्ति परा दिदेशिध गृहानी जमगुप्त भुव प्रचकृषि युधिष्ठि तदनुराजसूयाधर प्रसन्नभृतगर्भवत्सकव्याल त्वमप्ययि जगत्पदे द्विजपदा वनेजाधिकम् चकर्थ किमुकध्यदे नृपवरस्य भाग्योन्नतिः तदस्वनकर्मणि प्रवरमग्र्यपूजा विचार्य सह देववागनुगतः धर्मात्मजः व्यधत्तभवदे मुदा सदसि विश्वभूदात्मने तदा ससुरमानुशम्भुवनमेव तृप्तिं दधौ ततः मुनि चेदिपो मुनिनृपेषु तिष्ठत्स्वहो सभाजयति को पशुपदुर्दुरूटं वटुम् यदि त्वयिसु दुदा विदधिमुद्वमन्नासनादुदापदुदायुधः समपतन्नमुं पाण्डवाः निवार्य निजपक्षगानभिमुखस्य विद्वेषिणस्त्वमेव जहृषे शिरोदनुजदारिणा स्वारिणा जनुस्तृतय लब्धया सततचिन्तया शुद्धधीस्त्वया स परमेकदा मधृदयोगिनां दुर्लभां तद सुमहितो क्रदुवरे क्रतुवरे निरूढे जनो ययौ जयति धर्मजो जयति कृष्ण इत्यालपन् कलसदु सुयोधनो धुदमना सपत्नश्रिया मयार्पितसभामुखेस्तलजलभ्रमाद भ्रमीद मुद्धितम् द्रुपदनन्तना भीमयोरपाङ्गकलया विभो किमपि तावदु जृम्भयन् धराभरनिराकृतौ सपदि नाम बीजं निलय पाहि सर्वत्र गोविन्दनाम सङ्कीर्तनं गोविंद गोविंद।